श्री श्रीहरए नम अतस्त्रिशोध्याय मैत्रेय उवाच एवं निसंयकपिलस्य वचो जनित्री सागर्दमस्य दयितो किल देवहूतिः विस्रस्तमोहपटला तमभिप्रणं य तुष्टावतत्वविषयाङ्कितसिद्धिभूमिं देवहूतिरुवाच अदाव्यजो अन्तसलिले सयानं भूतेन्द्रियातात्ममयं वपुस्ते गुणप्रवाहं सदशेषबीजं दद्यो स्वयं यज्जडराब्जजातः स एव विश्वस्य भवान् विधत्ते गुणप्रवाहेण विभक्तवीर्यः सर्गात्यनीहो विविताभिसन्धिः आत्मेश्वरोतर्क्यसहस्रशक्तिः सत्वं भृतो मे जठरेणनाथ गतं नु यस्योधरयेतदासीत् विश्वं युगान्ते वटपत्रयेकः तेते स्म मायासिशुरङ्घ्रिपानः त्वं देदतन्त्रप्रसमाय पाप्मनां निदेशभाजां च विभो विभूतये यथावतारास्तव सुकराधयः तथा यमपि आत्मपथोपलब्धये यन्नामदेयश्रवणानुकीर्तनाद् यत् ब्रह्मणात् यस्मरणादपि क्वचित् स्वादोऽपि सद्यस्वनाय कल्पते कुतः पुनस्ते भगवन्नु स्व पचदो गरीयान् यज्जिह्वाग्रे वर्तते नाम दुभ्यं ते पुस्तपस्ते जुहुवुसुरार्या ब्रह्मानूचुर्नाम तं त्वामहं ब्रह्मपरं पुमांसं प्रत्यक्तोतसि आत्मनि संविभाव्यं स्वतेजसाध्वस्तगुणप्रवाहं वन्दे विष्णुं कपिलं वेदगर्भं मैत्रेय ईडितो भगवानेवं कपिलाक्य पुमान् वाचा विक्लवयेत्याह मातरं मातृवत्सलहा कपिल उवाचा मार्गेणनेन मातस्ते सुसेव्येनोदितेन मे आस्ति तेन परां काष्ठाम् अचिरात् अवरोत्स्यसे श्रद्धस्त्वैतन्मतं मह्यं जुषटं यत् ब्रह्मबाधिभिः येन मामभवं यायां मृत्युं रुच्छन्ति अयदद्विदः मैत्रेय उवाच इति प्रदर्श्य भगवान् सतीं तामात्मनो गतिं स्वमात्रा ब्रह्मवादिन्या कपिलोऽनुमतो ययो योगादेशेन योगयो तस्मिन्नाशम आपीडे सरस्वत्या समाहिता अभीक्ष्णावगाहकपिशान् जटिलान् कुटिलालकान् आत्मानं शोग्रतपसा विप्रतिशीलिनं कृशं प्रजापते घर्तमस्य तपोयोगविजृम्भितं स्वगार्हस्थ्यम् अनौपम्यम् प्राथम वैमा कैरपी पय निभासय दाता पदा आसना चैमानी सुस्पर्शा चफटिकुढ़ महामारकथेषु च रत्नप्रदीपा आभान्ति ललनारत्नसंयुताः गृहोद्यानं कुसुमिथै रम्यं भक्वमरध्रुमेहे पूजत् विहङ्गमिदुनं गायन्मत्तमधोव्रतं यत्र प्रविष्टम् आत्मानं विभुतानुचरा वाप्यां वाप्यामुत्पलगन्धिन्यां गर्तमेनोपलालितम् हित्वा तदीप्सितधमम् अभ्याघण्टलयोषिता किञ्चिच्चकारवदनं पुत्रविश्लेषणातुरा वनं प्रव्रजिते भत्या वपत्यविरहातुरा ज्ञातत्तत्त्वाभ्यभूनष्टे वत्से तमेव ध्यायति देवम् अपत्यं कपिलं हरिं वपूवाचिरथो वत्स निःस्पृहादातृशे गृहे ध्यायति भगवद्रूपं यदा सुतः प्रसन्नवदनं समस्तव्यस्तचिन्तया भक्तिप्रवाहयोगेन वैराग्येण बलीयसा युक्तानुष्ठानजातेन ज्ञानेन ब्रह्महेतुना विशुद्धेन तथात्मानम् आत्मना विश्वतोमुखं स्वानुभूत्योधिरोभूत मायागुणविशेषणं ब्रह्मणि अवस्थितमतेर्भगवती आत्मसंश्रये निवृद्धजीवाभर्तित्वात् क्षीणक्लेशाप्तनिर्वृतिः नित्यारूढसमाधित्वात् परावृत्तगुणभ्रमा नः स स्मार तथात्मानं स्वप्ने दृष्टमिवोत्थितः तद्देहपरतः पोषा प्यकृशश्चाद्यसम्भवाद् बभौमलैरवच्छन् तपोयोगमयं मुक्तकेशं कदाम्बरम् दैवगुप्तं न बुभुते वासुदेव प्रविष्टधीहे एवं सा कपिलोक्तेन आत्मानं ब्रह्मनिर्वाणं भगवन्तमवापवः तद्वीरासीत् पुण्यतमं क्षेत्रं त्रैलोक्यविश्रुतं नाम्ना सिद्धपदं यत्र सा संसिद्धिम् उपेयुषे तस्यास्तद्योगविदुत मार्त्यं मर्त्यमभूत्सरेत् स्रोतसां प्रवरा सौम्य सिद्धिता सिद्धसेविता कपिलोऽपि महायोगी भगवान् पितुराश्रमाद् मातरं समनुज्ञाप्य भ्रागुतिशीं तिशं ययो सिद्धचारणगन्तर्वैर्मुनिभिश्चाप्सरोगणैः स्तूयमानसमुद्रेण दत्तार्हणनिकेतनः आस्ते योगं समास्ताय साङ्ख्याचार्यै अभिष्टुदः त्रयाणामपि लोकानाम् उपशान्त्यै समाहितः एतन्निगदितं तात यत्पृष्टोऽहं तवानघकपिलस्य च संवादो देवहूत्याश्च भावनः यगितम् अनुशृणोति यो विधत्ते कपिलमुनेर्मतमात्मयो गुह्यं भगवती कृधति सुपर्णकेतौ उपलभते भगवत्पदारविन्दं भगवती कृदति सुपर्णकेतौ उपलभते भगवत् अदारविन्दम् इति श्रीमद्भगवते महापुराणे वैयासिक्यामष्टादश साहस्यां पारमहंस्यां संहितायां तृतीयस्कन्धे कपिलेयोभाख्याने त्रयस्त्रिंशोऽध्यायः इति तृतीयस्कन्धसमाप्ता सर्वात्र गोपिका जीवनस्मरणं गोविन्द गोविन्द सद्गुरुनाथमकराजुके जै